सन्त्वाम् च मेजिषा प्रजामायुर्धनम् च ओम् शान्तिःशान्तिःशान्तेः युवागम् सम्प्रभता महेरण बहुभ्यः पञ्चामनपस्पशानम् वैवस्पतकम् सङ्गमनम् जनाना यमगम् राजानम् हविरादुपश्यता इदम् त्वा वस्त्रम् प्रथमन्वा गन्न वैतलो हयधिरापुरा इष्टाभोत्तमनुतम्भस्य दक्षिणान्यथा दे दत्तम् बहुधा विबन्धुषो यमो विलज्यते वह्नि अशुनेय वोढवे सुकृताम् गोपाः परितलाद्विदृभ्योभ्यतेभ्यः ऊषेमाशानुवेदसर्वास्वा अस्माकम् अभयतमेण नेतग्निः सर्ववीरो प्रयच्छन् पुरगेधप्रविद्वान् आयुर्विश्वायुः परिपादयित्वा मौषात्त्वासे पुरस्तान् सुकृतोः सितादधातु भुवनस्य पदहिदगम् हिः अग्रगे स्वाहा पुरुषस्तृया पर्यवे दघाणि मृज्महे यथा मात्रणापरः पुराजलसायति पुरुषस्य प्राणमसितया स्मानि मैवम् मागस्ताप्रियेऽहम् देवी सदैव विश्ववा राणसाचम्बयन्ति भो नो लोकोदयाध्यापृत्स्व नियन्नारीपरिलोकम् मृणाना निर्ग न उपत्वाम्यप्रेतम् विश्वम् पुराणमनुपालयन्ते तस्यै प्रजान्द्रमिणम् चेष्मनान्यलेव लोकमिदासुवेदम् कुशेष हस्तग्राभस्य दृशोस्तमेतत्प्रत्यर्गनित्तमपि संलभूव सुवर्णम् हस्ता लालदानामृतस्य शिरे ब्रह्मणे तेजसेवलाय अत्रैव कमिह वयगम् सुषे वा विश्वास्पृधा अभिमादेर्जयेम धर्महस्तादालदानामृदस्य श्रिये क्षत्राय जसे मलाय आत्रैव कमिह वयगम् सुषे वा विश्वास्पृधा अभिमादेर्जयेम मणिकम् हस्तादालदानामृदस्य श्रिये विषयमुष्टे बलाय अत्रैव कमिह वयगम् सुषे वा विश्वास्पृधा अभिमादेर्जयेम इममग्ने चमसम् आविश्वरप्रियो देवाना मुदसौम्यानास्तस्मिन् देवाः मृतामालयन्ता अग्नेर्वर्म सम्प्रोग्नष्टमेधसा पीपसा चेष्टाणो चन् पर्यङ्कया तै यदा श्रुतम् करवो जातवेदोऽध्य मेनम् प्रहितात् पितृर्भ्यः श्रुतम् यदा कलसिजातवेदोऽध्य मेनम् परिदत्तात् पितृर्भ्यः पिता गच्छाति मे रामसा देवानाम् वशने भवादि सूर्यन्ते चक्षुर्विक्षातमात्माद्याम् च गक्षपृथिवे च धर्मणा अपोमा गच्छति तत्र च हितमोषदेशप्रतिष्ठा शरीरैः अजो अजोभागस्तवसातन्तपस्पतन्ते शोचिस्तवतन्ते अर्चिः शास्ते शिवास्तनुभजादवेदस्ताहेमकम् सुकृदान्यत्र लोकाः अयम् वै त्वमस्मादृसि त्वमेतदयम् वैतश्रियोजिरसि वैश्वानः पुत्रपित्रे न विकृज्जातवे लोमहेमकम् सुकृदान्यत्र लोकाः जगेतस्य पथोक्तारश्च भ्यस्वाः गेदस्य पशोर कृतारश्च भ्यस्वाः गेदस्य पशोभिरक्षितारश्च भस्वाहाख्यात्रे स्वाहाख्यात्रे स्वाहाभिलालपदे स्वाहा बलालपदे स्वाहाग्रयर्मदे स्वाहायमत्रणाधीमस्तस्मै स्वाहा र्गाय लोकाय स्वाहार्विश्वायी नित्य इदम् तयेकम् परौ तयेकम् तृतीये नद्योतिलासम् विशस्व संवेषु वेशादियो देवानाम् परमेश्वस्ते नागेशत्वेन हिरण्यपक्षम् वरुणस्तदौतयमस्य योनौ शवनम् भरण्यम् अनिद्रवसारमेयौ स्वानौ चतुरक्षौ शपदौ साधुना पथा असा विषयम् सविदत्रागम् अभिः यमादम् वदन्ति यौते श्वानो यमरक्षितारौ सुरक्षोपतिरक्षी रक्षसाभ्यागम् राजन् परिजयेन स्वस्ति चास्माधे दुर्वामनम् मनो यमस्तु दोतौ चावस्मभ्यम् दृशये सूर्याय पुनर्दत्तावसुमध्ये भद्रम् ृदमे कौपासते येभ्यमसुप्रथापजिताश्च देवाभिगच्छतादे ये युभ्यन्ते देवा दे। दे प्रधने शुशूरा सो ये च मुक्त्यजः एवा सहस्रदक्षिणाहस्ताश्च देवाभिगच्छता सर्वसाये सर्वसायेषु वर्गताः प्रभो ये च कृते दे महत्तागश्च देवाभिगच्छतात् अस्मन्वदेरेव अत्रायः मयेन सन्वायामुत्तरेमेवस्य पवित्रकम् सहस्रसारम् भ्रमणाहम् मागुम् सर्वतनम् पुनामि वयम् शाखाभिमिता निरपतिमिच्छमानाः धातुस्ताः सलुभापवनेन पोताः प्रदयास्मान् द्रय्यावत्यदाचगम् प्रजाद्वयम् तमसस्परिपश्यन् ज्योतिरुत्तरम् एवन्ते दे वत्त्रासूर्यमहन्मज्योतिरुत्तमम् धातापुनादुरविता पुनादो अग्नेयस्तेजसा सूर्यस्य वत्यसा यन्ते अग्निममन्थामृषभाये प्रवक्तवे हिमन्दकुशमयामुक्षेरेण चोदकेण च यन्तमग्नेदमलहस्तमनुर्वापया पुनः श्याम्भोरत्र जायताम् वाकदोर्वाप्यर्पषा शीतिके शीतिकापतिह्नादुके ह्लादुकावदे मन्दोक्याशुम् गमयेमग्निस्वाग्निगुम् शमय सन्देहन्मन्या वश्यमुते सन्त नोक्याः सन्देशमुद्र्या वश्यमुते सन्तवश्याः भिः सग्रिस्मिष्टा भूर्तेन परमे व्योमन्य यत्र भूम्ये वृणे तत्र गच्छदत्र त्वादेवस्य वितालधातु यत्र कृष्णस्य गुणादृतोपीडः सर्प उत वानमाविवेश उद्दिष्टातस्तनुभुम् सम्भरस्त्वमेहगाम् यत्र भूम्ये वृणधे तत्र गच्छदत्र त्वादेवस्य वितालधातु इदन्तयेकम् परभूतयेकम् तृतीये न ज्योतिसातं विदश्वा संवेषणस्तनुपैचारिरे दे प्रियो देवानाम् रमेप्रे हिप्रद्रवोक कृणस्व परमे व्योमन् यमेणत्वम् यम्यासंविधानोक्तमन्नाकमधिरो हेमम् अस्मन्वदेश्रवितुः परित्रय्या राष्ट्रात्पन्नादुद्वयम्परिधाता पुनादो अस्मात्त्वमधिजातोयन्त्वदधिजायताम् अग्न एव एश्वानलाय तु वर्गाय लोकाय स्वाहा आयानुदेवः सुमनाभिजोतिष यमोहमेहप्रयताभिरक्ता ृभक्ते प्रभाम्भरन्मानुषादे वयन्तः आसीतज्ञदाने स्वातस्थे भव यमायजता हविः यमगुम्भयज्ञो गच्छत्यज्ञदूतो अलङ्कृतः यमायक्षितवध्वपद्युः तनो प्रदेवसे यमायमधुमत्तमकुण्डाज्ञे अव्यञ्जुहोदना विदन्न महर्षेभ्यः पूर्वजेभ्यः पूर्वेभ्यः प्रसिषिभ्यः योऽस्य कौष्ठ्यजगतः पार्थिवस्यैकैद्वशी यमम् भङ्गश्रवो गाययो राजानवरोध्यः यमम् गायभङ्गश्रवो यो ते नापो नद्यो धन्वानये नद्यो पृथिवी दृढा हिरण्यकक्षाम् सुराने हिरण्याक्षा न शफाले अश्वार्नः श्रो यमो राजाभितिष्ठति यमोदाधार पृथिवीम् यमो विश्वमिदम् जगत् यमारसमितश्च यत्प्राणद्वाविलक्षितम् यथा पञ्च यथाषद्यथा पञ्च दशर्षयः यमञ्यो विद्यात् स ब्रूयात् त्रिकद्रुगे गायत्रे त्रिष्पच्छन्दायमाहितानो गामष्टम् पुरुषम् जगदे वैव श्रुतोप्रतिपञ्चभिर्माणवैर्यमः वैव श्रुतेर्विक्ष्यन्ते ये राजनि ते जनाः ये चैकसत्येनेक्ष्यन्ते य उचारिवादिनः ते राजन्यः विवक्ष्यन्ते थायम् द्युत्वामुप देवाविष्टयेन पश्यन्ति ब्राह्मणाविष्टापचित्यते यस्मिन् वृक्षे पलाशय देवैः संविपदे यमः अत्राणा विष्पदे पिता पुराणानुवेदी वैश्वाररे अविरञ्ज्वत्सकम् शरधारमेतम् तस्मिन्नेव विजलम् पिता महाम् प्रपितामहाम् विभरः पिन्वमाने धर्षश्च स्कन्द पृथिवीमनद्यानिमम् दयोनिमनयश्च पूर्वः रक्षञ्जुहात्रा इमगुम् समुद्रकम् शतधा रमुत्सम् यच्छमानम् भुवनस्य मध्ये घृतम् दुहानामपि चिन्तनाय ज्ञेवायगम्से परमे व्यमन् अवे रविरविचदर्पतातो ये प्रस्थपुराणाय च नूतनाः अहोभिरब्ध्यक्तभिर्यक्तम् यमोददात्ववसानमस्मै सवितैलानि शरीराणि पृथिव्ये मातुरुपस्थामग्रियाः शृणम् वाहा शृणम् नाराः शुनम् कृषतुलाङ्गलम्बरत्रावभ्यन्ताम् शुनमष्ट्रामुलिङ्गे शृणाग्रिया शुनमस्मातु दत्तम् शृणा हेला इमाम् वाजम् यद्विचक्रतुपयः तेनेमापत्यञ्चलम् श्रीरेवन्दामहे त्वार्वाकेषु भवान् यथा न सुफलाससि यथा न सुफलासति शरीराणि पृथिव्यैमासुरुपस्थाभिरम्भवाच्चध्वनिरान्ति पतयन्ति विद्युदौ पिन्वते सुभः विश्वस्ते भुवना विजायते यत्पर्जन्यः पृथिवेगम् यथायमानहारिम्यमानवाः एवम् अपामिहार्यम् यथा सामजीवलोके भूरयः चिरस्तवश्रयद्धम् वितरो देवता प्रजापतिर्वः सादयदतया देवतया आप्याय स्पसन्ते उत्तेदभम् लोकम् नितम् एतागस्थो नाम् पितरोधारयन् यमः सादनात्ते विनोदो उपसर्पमातरम् भूमिमेतामगम् पृथिवेकम् सुषेवा ओरणामृदायुमेषा त्वापादनिर्दित्यापश्चेष्टिसोपायनाष्टे भवसोपवञ्चना माता पुत्रयसाभ्ययनम् भूमिर्ण उत्पन्दमाना पृथिवी चिष्टविश्रयन्तश्वाहाः स्मै शरणाः सन्तत्रे सन्तु धेनवः हिरवत्सामोऽस्मै विधानाविश्वाहाधीयते गृहे अखिनिर्नाम ते असौ इदम् पितृभ्यः प्रभरेर्देवेभ्यो येवन्त उत्तरम् भरे मम यम्यासं वृक्षौ सम्पाधिष्ठाम् पृथिवीत्वम् वृक्षौ सम्पादयिवीमहि वैवस्पदग् गच्छादिराजे णि पृथिव्यै मातुम्भवार्यम् चक्षुर्गच्छतु वा तमात्माद्याम् च गच्छ पृथिवे च धर्मणा अपोपागच्छतिष्ठा शरीरैः चक्षुष्पदे सन्तोषधीः कल्पन्तानि शग्माः दिव्या स्त्वा लोके लाल्याम्यमुष्टशर्मा च वितरो देवता प्रजापतिस्त्वादादय दृतया देवतया अन्तरिक्षस्यत्वादिवस्तान् अपोपवागश्चनाम् घृतभागा एतावसाधने स्वथा निधीयते गृहे रक्षस्पताङ्गोपायस्पतान् देवलस्यान् प्रजापतिस्ताया देवतया अभूपवान् श्रितवान् क्षीरवान् मधुमागस्तरुले रसीतोत्तम् पृथिवेन्द्यामुतोपरिकटप्रसिकसर्वदयतये देवानागुम् श्रुतभागाः भागा मधुभागा युवस्था एषा ते सुधाक्षरादवस्राः क्षरायुताः क्षराच्युताक्षराताङ्गोपाय स्वयान्त्यस्या त्वामादपन्वितरो देवला प्रजापदिस्त्वादा देरुदया देवलया एतास्ते सुधा मुदा करोमि यास्ते धाना परिकिराम्यस्त्ययमपि तभिः संविधानोऽ करोतु वामर्जुनविदुः तासान् वामध्यादादेवभ्यो अपि धातवे दोर्वाणा स्तम्बमाह वीलाम् प्रियतमाम् मम इमानुशनम् मनुष्यानाम् भोजश्चानि विरोहतु काशानागस्तम्बमाह रक्षसा वहते पराभवन्नम्बमाह रमोधे अस्य सूरदोहंवादशमुदे सन्तोषेः कल्पन्ताम् देशः सर्वाः इदमेवमेतोपरामार्तिमारामकान्तो वनस्पतिः आर्तैत्यै द्वेषा शवनस्पतिः स्फुलघाद्वेगागम्पृतघा द्वेगागम्पुतघाद्वेगागम् पृथिवेङ्गच्चान्तरिक्षङ्ग च दिवङ्ग चतुषोग चतुर्वर्ग चतुर्वर्ग चतुषोगच्छ दिवङ्ग चान्तरिक्षङ्ग च पृथिवेङ्गच्चिलमोष प्रष्टा शरीरे अष्टन्वदेर्यद्वै देव पवित्राष्ट्राद्वयम् तम तत्परिधाता पुनाथो आरोहतायुद्धान अनपूर्वतमानायलिष्ठ ेवः क्रूरम् चकारमत्यः कर्मिर्भवस्तेव अपनः श्वोषिघमग्नेषु सध्यार्यम् अपनः शोतलघम् प्रत्यवे स्वाहा अनड्वाहमन्वारभामहे स्वस्तये सलिन्द्र इव देवेभ्यो वन्यः सम्पार्णाभव इमे देवावर्त्यन्नभो भद्रा देवभूतिन्नो अद्य प्रधरान्दधानाः प्रत्यापदय्यपयन्तोगदै मद्रासीयाय प्रधरान्दधानाः आप्यायमाना प्रदयाधनेन शुद्धा पोता भव सयज्ञया सह इमम् जीवेभ्यः परिच्यन्तसामानोऽनुगादो अर्धमेकम् शरम् जीवन्त शरदः पुरुषे स्थिता मृत्युम् दद्महे पर्वतेन इमानारे सुपत्नीराञ्जनेन सर्पिशासम् वृसन्दा अनश्रवो नीवासुसेवारोहन्तु जनयो निमग्रेः यथा च अन्तरीकुतम् जातकस्परि तेनामदस्य मूले नारादे भयामसि यथा एवम् अपनशोचितलघमेषु अपनशोचितलघम् सुप्ले त्रियादुकाच रामहे अपनः शोचितम् प्रगद्भन्तेः सहस्पदो विश्वतो यन्ति सूरयः अपनः शोचितरथम् प्रगत्ते अग्ने सूरयो जाये महि प्रदेभयम् अपनः शोषितरथम् अपनशोचितरथम् ोचितदघम्पुषा स्पष्टये अपनशोचितम्पत्यन्ददामुखम् अपनशोचितम् ऊर्ध्वा दुर्गा नीवास्पत्यन्ददामुखम् अपनशोचितम् आनन्दाय प्रमोदाय पुनराशोचितदशम् अवैलत्य गौरस्व पुरुषः पशुः ब्रह्म क्रियते अपश्याम युवतिमादरन्ते मृदाम् परिणीयमानाम् अन्ते सुप्रा ज वा जैममयन्नैताम् मास्ताम् प्रियमाना देवी सतीकृतलोकयदेशे विश्ववारानभसालम्बयन्ति भो नो लोकोपयसा भृणेः येष्टा अग्निमधुमन्द्रमोर्मिनमोन्दापयसाये हे जीवाय च मृताय जाताय दन्त्यान् माता रुद्राणात्यानामश्चनाभिः प्रणवोचना यमाकामना कामल्यम् वशिष्टा सौभाग्यमस्ते दत्वा षण् बृहस्पतिः षण् विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि गृहम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवतो तद्वक्तारमवतो अवद्माम् अवद्वक्तारम् न्तिः श्रीक्षाम् व्याख्यास्यामः तन्नः स्परः मात्रामलम् सामसन्धानः इत्युक्तस्येक्षाध्यायः सह नौ यशः सहनौ ब्रह्मवर्चनम् प्रसादस्रम्हिताया पुनर्गलम् व्याख्यास्यामः पञ्चस्मधिकरणेषु अधिलोकमधिज्योतिषमधिमधिप्रजमध्यात्मम् वामालम्बिता इत्याचक्षते अथाधिलोकम् पृथिवीपूर्वरूपम् द्यवोत्तररूपम् आकाशः सन्ति वायुःसन्धानम् इत्यधिलोकम् अथाधिज्योतिषम् अग्निः पूर्वरूपम् आदित्योत्तररूपम् आवः सन्ति वैद्युलः सन्धानम् इत्यधिज्योतिषम् अथाधिविद्यम् आचार्यः पूर्वरूपम् अन्तेवास्युत्तररूपम् विद्या सन्धे प्रवचनगुम्सन्धानम् इत्यधिविद्यम् अथाधिप्रजम् मातापूर्वरूपम् हितोत्तररूपम् प्रजा सन्ते प्रयनगुम्सन्धानम् एत्यधिप्रजाम् अथाध्यात्मम् अधराहनः कोपरूपम् उत्तराहनरुत्तररूपम् वाक्सन्धिः जिह्वा सन्धानम् एत्यध्यात्मम् इति मामहासगंहिताः एवमेता महासगंहिता व्याख्याता वेद सन्धीयते प्रजया पशुभिः ब्रह्मवचतेन नाद्येन ना सुवर्गेण लोकेन यच्छन्दसा मृभो विश्वलोभः छन्दो जमुताः सम् बभूव समेन्द्रमेधयाः शृणोतु अमृतस्य देवधारिणो भोयासम् शरीरम् मे विचरणम् जिक्वा मे मधुमत्तमा कर्णाभ्याम् भोजविश्रवम् ब्रह्मणः कोशात् मेधयाभिह श्रुतम् मे गोपाय आवहन् देव पूर्वाणाचीरमात्मनः वासाकंसिंहमगावश्च अन्नपाने च सर्वदा ततो मे श्रियमावहाः सरस्वाहा आमायन्तब्रह्मचारिण स्वाहा विमायन्तब्रह्मचारिण स्वाहा रमायन्तब्रह्मचारिण स्वाहा दमायन्तब्रह्मचारिण स्वाहा शमायन्द्वब्रह्मचारिण स्वाहा जनेतानि स्वाहा श्रेयानिवस्यशोषानि स्वाहा अन्द्वाभगप्रविशाणि स्वाहा समाभगप्रविश स्वाहा तस्मिन् समस्तशाखे निभगाहन्त्व ध्यातरायन्तु सर्वदस्वाः प्रतिवेशोऽधिप्रमा भारिप्रमा बद्यस्व भुवद्भुवस्वरिवारेथास्तिस्व व्याहृदयः तादा महस्मेताम् चे माजमस्त्रियः प्रवेदयते महैरे तद्ब्रह्मात्मा अङ्गार्यन्या देवताः भोरि दिवा अयम् लोकः भुवेत्यन्तरिक्षम् सुवैत्यसो लोकः मा इत्यादित्यः आदित्येन वाव सर्वे लोकामहीयन्ते भोरिति वा अग्निः भुव इति वायुः सुवैत्यादित्यः मह इति चन्द्रमाहाः चन्द्रमसा वाव सर्वाणिज्योतेगुंशि महीयन्ते भोरिदिवारिजः भुव इति ब्रह्मणा वाव वे वे वे वेदा महीयन्ते भोरि वै प्राणः भुवैत्यपानः सुवर्जिव्यानः नहैत्यन्नम् अन्ने न वाव सर्वे प्राणामहीयन्ते काला एताश्चतुर्धाः चतस्रश्चतस्र व्याहृदयः कायो वेद देवा बलिमा स येषान्तशः तस्मिन्नयम् पुरुषामनामयः अमृताभिरण्मयः अन्तरेण तालुकेवावलम्बते सेन्द्रयोनिः यत्राम् त्वा विवर्तते दैवाक्यशीर्षकपाले भोरित्यग्नौ प्रतिष्ठते भुवैदि वायौ सुपरित्यादित्ये महरि ब्रह्मणि आप्नो जिस्वाराज्यम् आप्नोजिमनसस्पतिम् वा पदश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशरीरम् ब्रह्म हत्यात्मप्राणानामम् मनः आनन्दम् शान्तिसमर्थमृतम् अज्ञविभायुरा नित्यश्चन्द्रमानक्षत्राणि आपोषध यौवनस्पदयाकाश आत्मा इत्यधिभूतम् तथा ध्यात्मम् प्राणाव्यानपानवदानः समानः चक्षात्रस्तावास्ति मज्जातवोचत् आङ्गम् वा इदगम् सर्वम् न्तस्फुणाते ओमिति ब्रह्मा ओमि सर्वम् इत्यश्रावयेत्याश्रावयन्ते ओमिति सामानि गायन्ते ओगुं स्वामिनि शस्त्राणि सगुंसन्ते ओमित्यध्वनियः प्रतिगरम् प्रतिगृणादि ओमिति ब्रह्मा प्रसौदे ओमित्यज्ञहोत्रमनुजानादे भो विब्राह्मण प्रवक्ष्यन्नाः ब्रह्मोपाप्रवाणे ब्रह्मैवोपाप्नोदे ऋतञ्चस्वाध्यायप्रवचने च सत्यण्डस्वाध्यायप्रवचने च तपश्च स्वाध्यायप्रवचने च दमश्च स्वाध्यायप्रवचने च शमश्च स्वाध्यायप्रवचने च अग्नयश्च स्वाध्यायप्रवचने च अग्निहोत्रम् च स्वाध्यायप्रवचने च आतिशयश्चस्वाध्यायप्रवचने च मानुषम् च स्वाध्यायप्रवचने स्वाध्यायप्रवचने्यः अहम् रक्षस्य रेरिवृष्ठम् वाजिने वमृतमस्मिणम् सवर्तम् सुमेधामृतोक्षितः वचनम् धर्त्यम् वदा धर्मन्तरा स्वाध्यायान्मा प्रमदः आचार्याय प्रियम् धनमाहत्य प्रजानन्दुम् मा व्यवक्षेक्ष्मे सत्या प्रमदितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भोतेन प्रमदव्यम् मातृदे वृतेवो भव आचार्यो भव अतिथिरे भव यानि न पद्यानि कर्माणि कानि चेवितव्यानि न वितराणि यान्यस्माकम् सुचरितानि तानि त्वयोपास्यानि तार न वितराणि एकैकास्तश्रेयागुधा ब्राह्मणाः प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् ध्रियादेयम् भियादेयम् संविदाेयम् अथेलिते कर्मविजिगित्सा वा वक्रविजिगित्सा वा स्यात् एतत्र ब्राह्मणा सम्मधिनः युक्ताः युक्ताः अलोक्षाधर्मकामास्यो यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः तथाभ्याःख्यातेषु एतत्र ब्राह्मणाः मनिनः युक्ताः युक्ताः अलोक्षाधर्मकामास्यो यथा ते तेषु वर्तेरन् तथा तेषु वर्तेथाः एषः देशः एष उपदेशः एष वेदोपनिषत् एतदनुशासनम् एवमुपाशितव्यम् एवमुचेतदुपास्यम् षण् मित्रः सम् वरुणः छन्न भवत्परियमः छन्न इन्द्र बृहस्पतिः छन्ना विष्णुरुक्रमः नमो ब्रह्मणे नमस्तेवाय त्वमेव प्रत्यक्षम् ब्रह्माधि प्रत्यक्षम् ब्रह्मावादिनम् प्रथमभालिनम् सत्यमभालिनम् तन्मावेद तद्वक्तारमावेद आवेन्माम् आवेदद्वक्तारम् ओम् दशान् विश्वान्तेः स्वहना भवतो सहनौ भुनक्तो सह वीर्यङ्करवामहे तेजस्मिनावधीतमस्तु मा विद्विषावहैः ओम् शान्तिः शान्तिः शान्तिः ब्रह्मविदाप्नोति परम्भ्युक्ता सत्यम् ज्ञानमनन्तम् ब्रह्म निहितम् गुहायाम् परमे व्योमन् सर्वान् कामान् सः ब्रह्मणानि पश्चितेति कस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः आकाशाद्वायोः वायोरग्नेः अग्नेरापः अभ्यः पृथिवी पृथिव्या वोढसयः वोड़ वोढदेभ्योन्नम् अह्नात्पुरुषः स एष पुरुषोन्नशमयः तस्येतमेव शिरः अयम् दक्षिणः अयमात्मा इदम् वृक्षम् प्रदिष्टा परपेदशोक भवति अन्ना द्वये प्रजा प्रजायन्ते याः काश्च पृथिवेगः श्रुताः अथो अन्नेनैव जीवन्ते अथैन तपि यन्त्यम् ततः अन्नगम्यभौदानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते सर्वम् वेदैन्नमाप्नुवन्ति ्रह्मपासृदे अन्नकम् हि भूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते अन्ना भूतानि जायन्ते जातान्यन्नेन वर्धन्ते अद्यदे त्रिशभूतानि तस्मादन्नम् तदुच्यत इति तस्मात् काले तस्मादन्नतसमयात् अन्यान्वरः आत्मा प्राणमयः पूर्णः समागेश पुरुषविध एव तस्य पुरुषविध अन्वयम् पुरुषविधः तस्य प्राण एव शिरः ज्ञानो दक्षिणपक्षः अपानोत्तरपक्षः आकाश आत्मा पृथिवी पुच्छम् प्रतिष्ठा परपेष भवति प्राणन् देवानुप्राणन्ति मनुष्याः पशवश्चये प्राणादिभूता नामायुः अस्मात् सर्वायुषमुच्यते सर्वमेपदाय विजन्ते हे प्राणम् ब्रह्मोपासते प्राणोरिभूता नामायुः अस्मात्सर्वायुषमुच्यत इति तस्यैष एव शारीर आत्मा यः पूर्वस्या तस्माद्वारे तस्मात् प्राणमयात् अन्यान्तरात्मा मनोमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य अन्वयम् पुरुषविधः तस्य यजुरेवशिरः निद्दक्षिणः पक्षः सामोत्तरः पुच्छम् प्रतिष्ठा तेदश्लोको भवति यतो वाचो निवर्तन्ते अप्राप्यमनसादः आनन्दम् ब्रह्मणो विद्वान् न विभेति कदा जनेति तस्यैषदेव शारीर आत्मा यः पूर्वश्च तस्माद्वारे तस्मान् अन्यान्तर आत्मा विज्ञानमयः तेनेश पूर्णः सभाेशपुरुषविधरेव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य श्रद्धैव शिरः दक्षिणप्रकरः सत्यमुत्तरपक्षः योग आत्मा महः पुच्छम् प्रतिष्ठश्लोको भवति यज्ञानम् कर्माणि तेऽपि विज्ञानं देवा देवाः सर्वे ब्रह्म ज्येष्ठमुपासदे विज्ञानं ब्रह्मजे द्वै तस्माच्छेन्न प्रमाद्यते शरीरे बात्मनो हित्वा सर्वान् कामान् समस्मृतविधे तस्यैकमेव शारीर आत्मा नः तस्माद्वारे तस्माद्विज्ञानमयात् अन्यान्तर आत्मानन्दमयः तेनेश पूर्णः समानेश पुरुषविध एव अस्य पुरुषमिधवा अन्वयम् पुरुषमिधः तस्य प्रियमेव विषयः मोदो दक्षिणः पक्षः प्रमोद उत्तरपक्षः आनन्द आत्मा ब्रह्मगुक्षम् प्रतिष्ठा फलपेडश्लोको भवति असन्नेमतः भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेव तस्यैषदेव शारीर आत्मा यः पूर्वस्य अथातो न प्रश्नाः उता विद्वानमल्लोकम् प्रेत्य कश्च न गच्छति आहो विद्वानमम् लोकम् प्रेत्य बहुस्याम् प्रजाये सतपोदप्यत सतपस्तप्त्वादगम् दर्वमसजत यदिदम् किञ्च तत्सृष्ट्वा तदेव न प्राविशत् तद न प्रविश्य सत्यच्चा भवते निरुक्तम् च निरुक्तम् च निलयनम् च निलयनम् च विज्ञानम् च विज्ञानम् च सत्यम् च निरम् च सत्यमभवत् यदि किम् च तत्सत्यमित्याचक्षते तदश्लोको भवति अथद्वा इदमग्रासीत् तथा वेशदजायत तदात्मानज्ञ स्वयमकुरुत तस्मात्तत्सकृतमुच्यतमिति यद्वैतत् सुकृतम् न स वैदः लब्ध्वानन्दे भवते को ह्येवान्यात् प्राण्यात् यदेश आकाश आनन्दो न स्यात् एष क्येवानन्दयाति यदा वैरस्मिन्नेन भयम् प्रतिष्ठाम् बिन्दते अथ च भयम् गतो भवति यदात्येव तस्मिन् अन्तरम् कुरुते अचरस्य भयम् भवति तत्रैव भयम् विजयोमन्वानस्य तदप्ययः श्लाको भवति